ततः स बालो नवनीतं तदाक्षये ग्रसमानस्तु तत्रायं गोपीभिर्ददृशेऽथ वै दाम्नाथो लूखले कृष्णो गोपस्त्रीभिश्च बन्धितः तदाथ शिशुनाथेन राजंस्तावर्जुनावुभौ समूलविटपौ भग्नौ तदद्भुतमिवाभवत् तत्रासुरौ महाकायौ गतप्राणौ बभूवतुः ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुह। नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ बभूवतुर्वत्सपालौ काकपक्षधरावुभौ पर्णवाद्यम् श्रुतिसुखम् वादयन्तौ वराननौ शुशुभाते वनगता उदीर्णाविवन्नगौ मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ अरविन्दकृतापीडौ रज्जु यज्ञोपवीतिनौ शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ क्वचिद्वसन्तावन्योन्यम् क्रीडमानौ क्वचिद्वने पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद्वनम् चञ्चूर्यन्तौ रमन्तौ स्म राजन्नेवम् तदाशुभौ ततो वृन्दावनम् गत्वा वसुदेवसुतावुभौ गोव्रजम् तत्र कौन्तेय चारयन्तौ विजह्रतुः भीष्म उवाच ततः कदाचिद् गोविन्दो ज्येष्ठं सङ्कर्षणं विना चचारतद्वनं रम्यं रम्यरूपो वराननः काकपक्षधर श्रीमाच्छ्यामः पद्मनिभेक्षणः श्रीवत्सेनोरसायुक्तः शशाङ्क इव लक्ष्मण